नाम सर्वेभ्यः अस्माकं योगनिष्ठजीवनम् इति वर्गे भवतां सर्वेषां स्वागतम् इदानीम् अस्माकं विषयः अस्ति धर्मनामकः धर्मः नाम कः इति विषयः अस्ति अत्र अस्मिन् करपत्रे एतावता किं पठितम् इति चेत् तत्र अस्माभिः उक्तं सर्वेषु प्राणिषु मनुष्यः एव विकसितमः अस्ति यतो हि तस्मिन् स्पष्टतया प्रतिबिम्बितचैतन्यं वर्तते अन्येषु जीवेषु तादृशस्पष्टता नास्ति स्पष्टतया प्रतिबिम्बितचैतन्यं नास्ति केवलमनुष्येषु एव तादृशस्पष्टतया प्रतिबिम्बितचैतन्यं वर्तते इति कृत्वा मनुष्यः किम् उचितं किम् अनुचितम् इति निर्णेतुं शक्यते तस्मिन् विवेकः वर्तते मनुष्येषु विवेकः वर्तते यदा क्लेशाः सन्ति तर्हि सः उपायम् अन्वेष्टुं शक्नोति सर्वे जीवाः सुखम् इच्छन्ति मनुष्यः अपि सुखम् इच्छन्ति तर्हि तत्र पशवः किं कुर्वन्ति सुखं यदा इच्छन्ति तदानीं किं कुर्वन्ति इति चेत् तेषां कृते आहारः निद्रा भयं मैथुनम् इति एतत् सर्वम् अस्ति चेत् ते सुखिनः भवन्ति परन्तु मनुष्याणां कृते यदा ते सुखम् इच्छन्ति मनुष्याः तदानीं ते किं कुर्वन्ति इति चेत् प्रथमतया ते लौकिकवस्तुभ्यः ते आकृष्टाः भवन्ति ते शारीरिकभोगान् प्रति एव धावन्ति तदर्थं ते धनसञ्चयं कुर्वन्ति अथवा अधिकपदवीं प्राप्तुम् इच्छन्ति इति एवं रीत्या तत्र लौकिकवस्तु वस्तुभ्यः वस्तु सुखं प्राप्तुम् इच्छन्ति किमर्तम किमर्थमेवं चेत् मनुष्येषु अपि पशुधर्मः वर्तते आहारनिद्राभयं मैथुनम् इति विषयः अपि वर्तते परन्तु तावदेव अस्ति चेत् तर्हि ते लौकिकवस्तुभ्यः तृप्ताः भवेयुः परन्तु ते जगति यानि वस्तूनि सन्ति तेभ्यः कदापि तृप्ताः न भवन्ति यत्किमपि भवतु धनार्जनं वा भवतु पदवी वा भवतु लौकिकवस्तु वा भवतु तर्हि कस्यचित् सीमितस्य प्राप्तिः केवलम् अधिकस्य अभावमेव जनयति तेषाम् आनन्दान्वेषणस्य समाप्तिः कदापि न भवति तर्हि ते तर्हि प्रायेण जनाः मनुष्यः मनुष्याणां क्षुधा पिपासा अतृप्ता एव भवति तर्हि तेषाम् अन्वेषणं कदापि न समाप्यते तर्हि अत्र किम् अवगच्छामः इति चेत् मनुष्ये मनुष्यस्य आनन्दप्राप्तेः एषणा अनन्ता वर्तते तस्य सीमा एव नास्ति सीमारहिता वर्तते अनन्ता वर्तते यतोहि यत्किमपि प्राप्यते तेन तेन सन्तुष्टः तेन तेन तेन सन्तुष्टः इति कृत्वा यत्किमपि कियदपि महत् भवतु यत्किमपि आर्जनं कियदपि महत् भवतु परन्तु तेन सीमितेन तेषां सुखं न लभ्यते तर्हि तत्र किं तदर्थं किं वयम् इति चेत् तैः किमपि यदा अनन्तं शाश्वतं प्राप्यते तदानिं ते शाश्वतमानन्दं प्राप्नुयुः तर्हि तद अनन्तं शाश्वतं किम् इति चेत् अस्माभिः दृष्टं तत्र एका सत्ता अनन्ता वर्तते सा सत्ता तत्र चैतन्यम् अथवा कास्मिक् एण्टिटि कास्मिक् एण्टिटि एव ब्रह्माण्ड्यसत्ता एव तत्र अनन्ता अनन्ता वर्तते तया एव मनुष्यस्य आकाङ्क्षा पूरिता भवति तर्हि अनेन वयम् अवगच्छामः यत् मनुष्यस्य मनुष्यस्य धर्मः कः प्रत्येकं मनुष्यस्य धर्मः कः इति चेत् ब्रह्मसाक्षात्कारः एव मनुष्यस्य धर्मः ब्रह्म एव नित्यम् आनन्दं दातुं शक्नोति शाश्वतं सुखं च दातुं शक्नोति इति कृत्वा ब्रह्मसाक्षात्कारः प्रत्येकं मानवस्य धर्मः यदा ब्रह्मणः प्राप्तिः भवति तदानीं मनुष्यः तृप्तः भवति तर्हि सः सन्तुष्टः भवति सन्तुष्टः सर्वे सर्वे प्राणिनः सन्तोषस्य अन्वेषणं कुर्वन्ति तर्हि अन्येषां कृते सन्तोषः लभ्यते यदा तेषाम् आहारः निद्रा एतत् सर्वं लभ्यते ते सन्तुष्टाः भवन्ति परन्तु मनुष्य मनुष्याणां कृते सन्तोषः इति विषयः लौकिकवस्तु प्राप्यते चेत् तत्र सुखं दुःखं च भवति यदा किमपि प्राप्यते तदानीं यदिच्छ यदिच्छामः तस्य प्राप्तिः भवति चेत् सुखं लभ्यते परन्तु तद् प्राप्त्यनन्तरं तत्र तावदेव सुखं गतं तत्र निरन्तरसुखम् अस्ति वा न सुखं गतं तदनन्तरं पुनः दुःखम् आगच्छति यतोहि तत्तु यद् इष्टं तत्तु तर्हि इदानीं पुनः तत्र किमपि अन्यस्य अन्वेषणमस्ति अतः पुनः दुःखमस्ति इति एवं रीत्या तत्र चक्रम् अस्ति सुखं दुःखं सुखं दुःखम् इति चक्रमस्ति मनुष्यः अनन्तम् इच्छति अतः गीतानि सर्वाणि तु सीमितानि सन्ति इति कृत्वा सः कदापि सुखं न प्राप्नोति तर्हि वयं किम् अवगच्छामः इति चेत् मानवस्य आग्रहस्य पृष्ठतः भ्रमणः प्राप्तेः आकाङ्क्षा निगूढा वर्तते इट् इस् हिडेन् द डिसैर् फार् इन्फानिट् इस् हिडेन् तदर्थम् अस्माभिः धर्मः कः इति धर्मः इति बहु महत्त्वपूर्णः शब्दः तस्य अर्थः कः इति अस्माभिः चर्चितं तर्हि धर्मः इत्युक्ते वस्तुनः वास्तविकः स्वभावः वास्तविकः स्वभावः एव धर्मः इति वयं वदामः प्रापर्टि अर् केरेक्टर्स् इति वदामः यथा अग्नेः स्वभावः दहनः दहनम् अथवा जलस्य स्वभावः आद्रिकरणम् एवं मानवस्य स्वभावः कः इति चेत् ब्रह्मणः अन्वेषणमेव मानवस्य स्वभावः अस्ति तर्हि अस्माभिः पशुभ्यः विकसिताः इति कृत्वा अस्माकम् अन्ते पक्ष पश् वर्तते धर्मद्वयं वर्तते पशुधर्मः अपि च मानवधर्मः इति धर्मद्वयं वर्तते अनयोः धर्मयोः मध्ये सङ्घर्षः अस्ति प्रायेण जनाः एतं सङ्घर्षं न अवगच्छन्ति इति कृत्वा ते प्रायेण पशुधर्म पालनं कुर्वन्ति तर्हि इति कृत्वा ते परिमितेन वस्तुना ते तृप्ताः न भवन्ति इति तु वयं जानीमः यद्यपि पशुमनुष्ययोः भोगप्रवृत्तिः उभयोः अस्ति परन्तु पशुषु यः पशुत्वधर्मः अस्ति अपि च मनुष्येषु यः पशुत्वधर्मः अस्ति तत्र भेदः अस्ति पशुषु यः पशुत्वधर्मः अस्ति यत् यदि तत्र पशोः समीपे भोजनं स्थापयामः चेत् तर्हि यावत् अपेक्षितं तावत् स्वीकृत्य ततः तत् निर्गच्छति परन्तु मनुष्याः तथा न कुर्वन्ति यदि त पुरतः भोजनं स्थापयामः चेत् यावत् आवश्यकं तस्मादपि अधिकं ते स्वीकुर्वन्ति तदापि ते तृप्तानां तृप्ताः भवन्ति किमर्थम् चेत् तत्र तेषाम् अन्यः धर्मः अस्ति अनन्तेषण तादृश एषणायाः तत्र आच्छादनं भवति पशुधर्मे अतः वस्तुषु तादृश अनन्तेषणायाः आच्छादनं भवति अतः यत्किमपि प्राप्यते चेत् इतोपि अधिकम् इतोपि अधिकमिति तेषाम् आकाङ्क्षा सर्वदा वर्तते तर्हि इमानि वस्तूनि प्राप्तानि चेदपि मनुष्याणां चैतन्यं न तुष्यति तेन तुष्टः न भवन्ति यतोहि एतानि सर्वाणि वस्तूनि अनित्यानि क्षणिकानि सन्ति अनित्यानि क्षणिकानि सन्ति अतः मनुष्याणाम् इदं चैतन्यम् एव मनुष्येषु ब्रह्मप्रति इच्छां जनयति तर्हि मनुष्येषु विवेकः अस्ति पशुधर्मः अपि अस्ति विवेकः अपि अस्ति पशुधर्मः तं लौकिकवस्तु प्रति धावनं कर्तुं प्रेरयति परन्तु मनुष्येषु यत् चैतन्यं वर्तते यद् विवेकः यः विवेकः वर्तते तद् मनुष्यं ब्रह्मप्रति धावितुं प्रेरयति इति कृत्वा मनुष्येषु सङ्घर्षः सर्वदा सङ्घर्षः भवति अत्र अहं पशुधर्मस्य पालनं करोमि वा अनन्तेषणायाः पूर्त्यर्थं प्रयत्नं करोमि इति सर्वदा तत्र मनुष्येषु सङ्घर्षः वर्तते अत्र मनुष्येषु एकः किम् विलक्षणः विषयः इति चेत् अन्यः विलक्षणः धर्मः मनुष्येषु कः इति चेत् मनुष्येषु एव केवलं स्वतन्त्र इच्छा वर्तते वयं पशुधर्मस्य पालनं कर्तुं शक्नुमः अथवा मानवधर्मस्य पालनं कर्तुं शक्नुमः इति तादृशी तत्र स्वतन्त्र इच्छा वर्तते अतः ये मनुष्याः अवगच्छन्ति तद् तस्मिन् तत्र अनन्तेषणा वर्तते ब्रह्मणः साक्षात्कारः एव मम जीवनस्य लक्ष्यमिति ये जनाः जानन्ति ते तदर्थं यत्नं कुर्वन्ति तर्हि ते स्वतन् स्वतन्त्र इच्छायाः प्रयोगं कृत्वा ते ब्रह्मणः साक्षात्कारार्थं प्रयत्नं कुर्वन्ति परन्तु ये जनाः नावगच्छन्ति तर्हि ते सर्वदा जीवन सम्पूर्णजीवनं पशुधर्मस्य पालने एव यापयन्ति इति कृत्वा सम्पूर्णजीवनं कदापि ते सन्तुष्टाः न भवन्ति यत्किमपि लभ्यते इदानीं तत्र एकः पुत्रः अस्ति चेत् इदानीं मम पुत्री इति चिन्तयन्ति अथवा यत् यस्मिन्नपि कस्मिन्नपि पक्षे भवतु यस्मिन्नपि कस्मिन्नपि क्षेत्रे भवतु एवमेव तेषा तेषाम् इच्छा सर्वदा भवति एव अन्यद् आवश्यकम् अन्यत् अवश्यकम् इति ते न जानन्ति यत् तेषां ब्रह्मसाक्षात्कारः इति विषयः वर्तते इति अपि ते न जानन्ति अतः मनुषेषु एतादृशः सङ्घर्षः अस्ति सङ्घर्षः अस्ति मनुष्येषु यत् चैतन्यं वर्तते तेन अन्यत् किमपि शाश्वतं सुखं सुखं मनुष्येषु यत् चैतन्यं वर्तते तत् शाश्वतं सुखम् इच्छति शाश्वतं शान्तिम् इच्छति यद् क्षणिकं नास्ति तर्हि तादृशी आकाङ्क्षा एव मनुष्यान् आनन्दं प्रति नेतुं शक्नोति तदर्थं तेषां मार्गदर्शनं भवति मनुष्येषु यत् तद् लौकिकवस्तुभ्यः अतृप्तः अतृप्तम् अस्ति इति कृत्वा तत्र आ, ते किमपि शाश्वतं प्रति अन्वेषणं ते आरम्भम् अन्वेषणस्य शाश्वतस्य अन्वेषणं ते तैः आरभ्यते इति एतावता अस्माभिः दृष्टं तर्हि इदानीं ततः अग्रे वयं गन्तुं शक्नुमः तत्र पेज् लेवेन् मध्ये प्रियभगिनी पठितुमिच्छति वा लास्ट् पेराग्राफ् पेज् वदामि नमस्कारः नमस्कारः भगिनि मनुष्यः किल मनुष्यः प्रत्येकं पदाेटेड् सुप्रतिबिम्बितं चैतन्यमेव मनुष्यान् पशुभ्यः विन विनक्तिनक्ति केवलं सुप्रतिबिम्बितं चैत्यन् चैतन्यम् एव मनुष्यान् पशुभ्यः भिनक्ति तर्हि अस्य चैतन्यस्य सदुप सदुपयोगः मनुष्याणाम् अवश्यकर्तव्यं नास्ति किम् यदि मनुष्याणां चैतन्यम् तेषाम् पशु, पशुत्वस्य पृष्ठतः सुप्तं भवति तर्हि निश्चयेन मनुष्याः पशुवत् आचरन्ति वस्तुतः ते पशुभ्यः अदमाः भवन्ति यतोहि यद्यपि तेषां सुप्रतिबिम्ब सु, सुप्रतिबिम्बितं चैतन्यं वर्तते तथापि ते तस्य चैतन्यस्य उपयोगं न कुर्वन्ति एतादृशाः जनाः मानवपदवीं न अर्हन्ति एतादृशाः जनाः मनुष्यशरीरे विद्यमानाः पशवः एव सन्ति तत्र पशु पशुः वा मनुष्याः वा भिन्नः किम् इति पृष्टामः चेत् केवलं तत्र प्रतिबिंबम अस्ति किल परमात्मा परमात्मनः प्रतिबिम्बं मनुष्ये अस्ति मनुष्ये अस्ति तदेव भिनक्ति भवति सो अतः मानवानां तत् प्रतिबिम्बं सम्यक् रूप सम्यक् रूपेण तत् प्रयोगं करणीयं किल नो चेत् सर्वदा ते सर्वदा ते तत् परमात्मा अनन्तान्वेषणं न करोति परमात्मा तस्मिन् अस्ति इति न ज्ञातवन्तः तस्य कृते कार्यं न करोति चेत् Uh, ते केवलम पशु uh, पशवः एव पशुत्वम् एव आचरन्ति पश पशवः इव सर्वदा भवन्ति uh, अपि च uh, तस्मिन् पशुत्वम् एव uh, उपरि अस्ति मनुष्यत्वम् अधम भवति अतः uh, एतादृशाः जनाः अपि uh, मानवपदवीं uh, भवितुमेव न अर्हन्ति मानवपदवीं प्राप्तुमेव न अर्हन्ति प्रायः ते पशवः भवति चेत् एव उत्तमं कारणं किम् इत्युक्ते पशु पशु पशुधर्म केवलं पशुधर्मम् एव ते सर्वदा प्रदर्शयन्ति अतः मनुष्यत्वं मनु मनुष्य मनुष्य मानवधर्मः न आचरन्ति मानव तत् चैतन्यम् अपि प्रयोगं न कुर्वन्ति उपयोगं न कुर्वन्ति सो एतादृशः जनाः यथा मनुष्य भुविलु मनुष्यरूपेण भुवि वार भूताः भवन्ति अपि च मनुष्य मनुष्यरूपेण मृगाः चरन्ति इति ज्ञातुं शक्नुमः अतः यदा वयं न मनुष्यधर्मं न मनुष्यधर्मस्य लक्षणं परमात्मस्य अन्वेषणं तत् वयं न कृतवन्तः चेत् वयं पशुः एव इति तत्र सारांशः सम्यक् भगिनी समीचीनं सम्यक्तया उक्तवती आम् इति एव तत्र वार्ता अस्ति इत्युक्ते मनुष्याणाम् अत्यन्तं स्पष्टतया प्रतिबिम्बितचैतन्यं वर्तते इति अस्माभिः वारं वारम् उक्तं स्पष्टतया प्रतिबिम्बितचैतन्यम् इत्युक्ते तत्र परमात्मनः प्रतिबिम्बः स्पष्टतया भवति मनुष्याणां मनसि इत्युक्ते मनुष्य मनुष्यस्य मनसि तादृशसामर्थ्यं वर्तते येन परमात्मनः स्पष्टतया प्रतिबिम्बः भवितुमर्हति मनुष्याणां मनसः मनः मनः यदि सम्यक् शुद्धम् अस्ति तर्हि परमात्मनः प्रतिबिम्बः स्पष्टतया भवति यथा उक्तम् यथा तत्र सरोवरे यदि जलं स्वच्छम् तत्र मलिनं मलिनानि न सन्ति तदानीं चन्द्रस्य प्रतिबिम्बः यथा स्पष्टतया भवति जले तथैव परमात्मनः प्रतिबिम्बः मनुष्याणां मनसि भवति यदा मनुष्यस्य मनः स्वच्छं भवति इत्युक्ते मनुष्यस्य मनसि तादृशसामर्थ्यं वर्तते इत्युक्ते मनुष्येषु एतादृशी शक्तिः अस्ति अस्माकम् एतादृशी शक्तिः अस्ति तर्हि तस्य उपयोगः अस्माभिः अवश्यं करणीयः यतोहि मानवजन्म अस्माभिः बहु यत्नेन लब्धः खलु मानव शरीरं बहु यत्नेन तर्हि तस्य उपयोगः अस्माभिः करणीयः तर्हि अनया शक्त्या यद्वयं प्राप्तुं शक्नुमः अस्माकं तादृशसामर्थ्यं वर्तते वयं न जानीमः अस्माकं तादृशसामर्थ्यं वर्तते यद् वयं ब्रह्मणः साक्षात्कारं कर्तुं शक्नुमः तादृशसामर्थ्यं तु अन्येषु नास्ति इत्युक्ते पश्यन्तु अस्माकं कियत् सामर्थ्यं वर्तते वयं न जानीमः वयं सर्वदा वयं चिन्तयामः अहम् अल्पज्ञः इति वयं चिन्तयामः खलु अल्पज्ञः अल्पज्ञा इति वयं चिन्तयामः परन्तु अस्माकं तु तादृशी सामर्थ्यं वर्तते यद्वयं ब्रह्मणः साक्षात्कारं कर्तुं शक्नुमः परन्तु वयम् अस्य शक्तेः प्रयोगं न कुर्मः अन्येषां प्राणिनां स्वधर्मानुसारं विना अन्यः विकल्पः नास्ति दि डोण्ट् हेव् अ चाय्स् डोण्ट् हाव् अ चायस् बिडालेन बिडालधर्मस्य अनुसरणं कर्तव्यमेव बिडालः शुनकः एव आचरितुम् आचरितुं न शक्नोति शुनक एवं शुनकः बिडालवत् न वर्तयितुं शक्नोति सः शुनकः एव सः आचरणं करोति एवं गजः अस्ति चेत् गजः एव गजः एव व्यवहर्तव्यम् इति वयं पश्यामः चेत् वृक्षः वृक्षः एव व्यवहर्तव्यः इति तत्र अन्येषां प्राणिनां धर्म स्वधर्मानुसारणम् अनुसरणं विना अन्यः विकल्पः नास्ति परन्तु मनुष्याः तादृशजीवाः सन्ति येषु स्वधर्मस्य अनुसरणम् अहं करोमि वा न करोमि वा इत्यत्र विकल्पः अस्ति अयं तु बहु महत्त्वपूर्णविषयः अस्ति एतादृशविकल्पः अन्येषु नास्ति केवलमनुष्येषु एव वर्तते तर्हि अयं विकल्पः एव मनुष्यान् अन्येभ्यः पशुभ्यः अन्येभ्यः सस्येभ्यः अन्येभ्यः जीवेभ्यः मनुष्यं पृथक् करोति अयं बहु महत्त्वपूर्णः भेदः वर्तते तेषां सर्वेषां तु विकल्पः नास्ति तैः स्वधर्मस्य अनुसरणं करणीयमेव यदि तत्र तत्र कञ्चन पक्षिणं वयं पश्यामः चेत् वयं ज्ञातुं शक्नुमः तस्य व्यवहारः कथं भवति इति वयं पूर्वमेव ज्ञातुं शक्नुमः सः यदि तत्र कोऽपि नास्ति चेत् तर्हि भोजनम् अस्ति चेत् तत्र तत्र सः आगत्य तत् पक्षी आगत्य खादति यदि तत्र धीतः अस्ति पक्षी तर्हि सः तेन उड्डीयते तत्र परितः कोऽपि नास्ति चेत् तर्हि सः भोजनं खादति इति तस्य व्यवहारः कथं भवति इति अस्माभिः ऊहितुं शक्यते यतोहि तस्य व्यवहारे परिवर्तनं नास्ति सर्वदा तस्य व्यवहारे एवमेव भवति इति वयम् ऊहितुं शक्नुमः तर्हि परन्तु मनुष्याणां मनुष्याणां कृते तत्र यः धर्मः अस्ति विलक्षणः धर्मः अस्ति इति तत्र वस्तुतः धर्मद्वयं वर्तते विलक्षणधर्मः मनुष्यत्वधर्मः अपि अस्ति पशुधर्मः अपि अस्ति इति कृत्वा विकल्पः अस्ति अतः तत्र मनुष्याणां सर्वदा तत्र भ्रमः भवति किं मया किं कर्तव्यम् एतत् कर्तव्यं वा तत् कर्तव्यं वा इति तर्हि तत्र किम् अस्ति परिचितः मार्गः तस्मिन्नेव वयं गच्छामः तत्र यद्मा यः मार्गः कृते परिचितम् अस्ति परिचितः अस्ति तस्मिन्नेव वयं गच्छामः अधिकतया तदेव वयं कुर्मः तर्हि जनाः स्वशक्तेः उपयोगं न करो कुर्वन्ति यतोहि ते न जानन्ति तेषां सामर्थ्यं ततः अपि अधिकम् अस्ति केवलं परिचितमार्गे गमने एव अस्माकं धर्मः नास्ति लक्ष्यमपि नास्ति मनुष्ये तादृशसामर्थ्यं वर्तते ते इतोपि अधिकं ते प्राप्तुं शक्नुमः शक्नुवन्ति परन्तु ते तु ज्ञातमार्गे एव गन्तुम् इच्छन्ति यतोहि पूर्वनिर्धारितम् अस्ति अतीव परिचितम् अस्ति परिचितः अस्ति मार्गः युगात् तदेव तत्र जन्म जन्मजन्म जन्मान्तरं वयं तदेव वयं कुर्मः इति तत्र यदा मनुष्यः पशुवत् व्यवहरति अपि च पशुः पशुवत् व्यवहरति अनयोः भेदः वर्तते पशवः पशवः पशवः एव वर्तन्ते ते पशवः सन्ति तेषां विकल्पः नास्ति परन्तु मनुष्येषु पशुवहारः करणीयः वा इत्यत्र ते इतोपि विचारं कर्तुं शक्नुवन्ति इति तादृशसामर्थ्यं वर्तते विकल्पः वर्तते यदि ते तत्र विकल्पस्य प्रयोगं न कुर्वन्ति तर्हि ते तर्हि कुर्वन्ति तदानीं ते पशुभ्यः अपि अधमतमाः भवन्ति यदा पशुवत व्यवहरन्ति तदानीं ते पशुभ्यः अपि अधमतम अधमतमाः भवन्ति यतोहि पशूनां विकल्पः नास्ति अस्माकं कृते विकल्पः अस्ति पशुधर्मस्य पालनं वा मनुष्यधर्मस्य पालनं वा इत्यत्र विकल्पः अस्ति तथापि वयं पशुधर्मस्य पालनं कुर्मः चेत् तर्हि अवश्यमेव तत्र पशुभ्यः अपि वयम् अधमतमाः स्मः इति वयम् अवगन्तुं शक्नुमः यदि कपिः कपिः अस्ति वानरः अस्ति सा आगत्य कदलीफलं खादति तर्हि तत्र कोऽपि न वदति कपिः कदलीफलस्य चौर्यं कृतम् इति कोऽपि न वदति इत्युक्ते तस्मिन् दोषा दोषारोपः कदापि न भवति यतोहि तस्य व्यवहारः तथा एव अस्ति तस्य धर्मः तथैव अस्ति अतः तस्य अन्यत् किमपि तस्मात् अपेक्षा नास्ति परन्तु मानवः तादृशं करोति चेत् तर्हि पशुवत् कार्यं करोति चेत् तर्हि तद् मनुष्यस्य कृते अयुक्तम् अस्ति युक्तं अतः ते पशुभ्यः दुष्टतराः इति वयं वदामः पशुवत् एव व्यवहारः अस्ति परन्तु वयं किं वदामः यदा पशुः तत्र कदलीपलं खादति चेत् वयं किमपि न वदामः अस्तु तस्य स्वभावः एवम् अस्ति इति करोति परन्तु वयम् अन्यत्र कुत्रचित् गत्वा कदलीफलं खादामः चेत् तत्र चौर्यकार्यं भवति खलु तर्हि सः पशुभ्यः अधमः इति वयं वदामः तर्हि तर्हि तत्र वयं किं वदामः सः मनुष्यरूपेण पशुः अस्ति इति वयं वदामः यः पशुमार्गे गच्छति यः मनुष्यः पशुमार्गे गच्छति इत्युक्ते तं प्रति एवं न वदामः भवान् मनुष्यरूपेण पशुः अस्ति इति वयं तथा न वदामः परन्तु अस्माकम् अवगमनार्थम् एवं वदामः इदानीं तत्र यः एतादृशं करोति सः मनुष्यरूपेण पशुः अस्ति इति वयं वदामः वदामः परन्तु अस्माकं ये योगनिष्ठमार्गे गच्छन्ति अस्माकं कर्तव्यं किम् इति चेत् अस्माभिः सर्वान् जनान् अस्माभिः तत्र सर्वान् जनान् प्रोत्साह प्रोत्साहनीयं तत्र मनुष्यवत् भवान् आचरतु इति अस्माभिः प्रो प्रोत्साहनीयं तत्र आकर्षयितुम् अस्माभिः तम् अस्मिन् मार्गे आकर्षितुम् अस्माभिः प्रयत्नः करणीयः यत् यतोहि अयं मार्गः उचितः अस्ति खलु योगनिष्ठमार्गः उचितः अस्ति एतदस्माकं कर्तव्यमस्ति परन्तु तं मनुष्यं वयं मनुष्यरूपेण पशुः इति वयं तथा, तथा वयं आ, आ, न तस्य आह्वानं न कुर्मः वै तथा न कुर्मः तत्तु समीचीनं नास्ति तत्तु अनुचितम् अस्ति कस्यचित् पुरुषस्य वर्धनाय वयं साहाय्यं कुर्मः तर्हि अन्यस्य उन्नयनार्थम् अस्माभिः प्रयत्नशीलाः भवेयुः अन्येषां कृते कृते अन्येषां वर्धनार्थं प्रयत्नशीलाः भवेयुः इत्यस्य अर्थः कः इति चेत् प्रथमतया अस्माभिः अत्र यत्किमपि चर्चितं तस्य पालनम् अस्माभिः करणीयम् अस्माभिः प्रथमतया मनुष्यत्वं नाम किम् इति अवगन्तव्यं मनुष्यः अस्माभिः मनुष्याः तत्र अस्माभिः मनुष्याः इत्युक्ते किं मनुष्याः यदा वयं भवामः तदानीमेव अन्य अन्यस्य प्रेरणां कर्तुं शक्नुमः अन्यान् अस्मिन् मार्गे आनेतुं तदानीमेव शक्नुमः स्वयम् उदाहरणं भूत्वा अन्येषां कृते सम्यक् मार्गस्य प्रेरणां सम्यक् मार्गस्य प्रदर्शनं वयं कुर्मः तस्मिन् वयं प्रयत्नशीलः भवेम ये मानवरूपेण पशवः सन्ति तेषां कृते वयम् उत्तमानि उदाहरणानि भवेम तथा अस्माकं व्यवहारः तेषां कृते तादृशमनुष्यानां कृते अपि अस्माकं व्यवहारः मधुरः भवेत् शिष्टः अपि भवेत् अवर् बिहेवियर् टुवर्ड्स् आल् दोस् पीपल् शुड् बि स्वीट् एण्ड् वेरि पोलैट् अवर् इन्ट्राक्षन् शुड् बि वेरि वेरि स्वीट् एण्ड् पोलैट् सो यः योगी अस्ति साधकः अस्ति सः अन्य अन्यजनाः तम् इच्छन्ति सः अन्येषां प्रीतिविषयः भवति यतोहि सः विनय अतीवविनयः विनयपूर् विनयपूर्णः भवति सः विनयपूर्णः भवति अपि च हि विल् नाट् हाव्गी विटि काम्प्लेक्स् तस्य तस्मिन् तत्र श्रेष्ठताभावः न भवति इत्युक्ते अहं श्रेष्ठः अस्मि भवान् श्रेष्ठः नास्ति इति तत्र तत्र हि किं महामान्यता इति वदामः खलु महामान्यता हीनमान्यता इति वदामः सुपिरिटि कान्प्लेक्स् काम्प्लेक्स् इन्टिरिटि काम्प्लेक्स् योगिषु तादृशमहामान्यता श्रेष्ठताभावः न भवति तादृशभावः नकारात्मकः अस्ति अहमेव श्रेष्ठः अस्मि इति एतादृशभावः नकारात्मकः नकारात्मकः अस्ति तर्हि अन्येषां कृते व्यवहारः योगिनः व्यवहारः भवति तर्हि अतीवमधुरः भवति तस्य व्यवहारः अतीवशिष्टः भवति तत्र प्रीत्या अन्यैः सह अस्माभिः सम्भाषणं कर्तव्यं तत्र अस्माकं यदा वयं सम्भाषणं कुर्मः तदानीम् अस्माकं अस्माकं ध्वनौ तत्र प्रीतिः भवेत् अस्माकं ध्वनिः मधुरः भवेत् तदानीमेव अन्यान् वयम् आकर्षयितुं शक्नुमः तर्हि अयमनुच्छेदः अस्माकम् अवगमनार्थम् अस्माकं स्वस्य आत्मविश्लेषणाय दिस् दिस् पेराग्राफ़् इस् फ़ार् अवर् अण्डर्स्टाण्डिङ्ग् अण्ड् फ़ार् अवर् सेल्फ़् अनालिसिस् फ़ोर् अवर् ओन् रिफ्लेक्शन् आफ़् हौ टु मेक् अवर् लैफ़्स् बेटर् स्वजीवनं कथम् उत्तमं कर्तुं शक्नुमः उत्तमं करणीयम् अस्माभिः जीवनम् उत्तमम् उत्तमं करणीयम् अस्माभिः इति एव परिच्छेदे अत्र उक्तम् अस्ति अस्तु कोपि प्रश्नः अत्र अग्रे गच्छामः वा अस्तु तर्हि इदानीम् अग्रे गच्छामः विद्याभ्य पठितुमिच्छति वा हा महोदय द नेचर् आफ् एतत् वा पठतु आम् आङ्ग्लभाषायां पठितुमिच्छति वा एतदेव तिष्ठति अत्र आमाम् अन्तस्तस्य अनन्तस्य अनन्तस्य अन्वेषणम् अथवा भ्रमणः साक्षात्कारः चैतन्यस्य स्वभावः अस्ति केवलं ये मनुष्याः चैतन्यस्य उपयोगं कृत्वा तस्य आदेशान् च पालयन्ति ते एव मनुष्याः इति वक्तुम् अर्हाः अतः प्रत्येकं मनुष्यः स्वस्य प्रतिबिम्बि प्रतिबिम्बि प्रतिबिम्बि चैतन्यस्य सम्पूर्णप्रयोगेन मानवः इति सम्बोधना सम्बोधनार्थत्वम् अर्ह अर्जयति सहजमनुष्यः पश्यति यत् स्वस्य अथवा स्वस्याः धर्मः वा स्वभावः केवलं अनन्तस्य ब्रह्मणः अन्वेषणमेव ब्रह्मप्राप्तेः एषणा एव मनुष्याणां सहजः वा गुणः वा अस्ति सः धर्मः एव मनुष्याणां मनुष्यत्वस्य लक्षणं भवति तदेव खलु महोदय आं वदतु किं तत्र प्रत्येकं वाक्यं स्वीकृत्य वदतु किम् अवगतम् आम् अनन्तस्य अन्वेषणम् इत्युक्ते अत्र अथवा ब्रह्मणः साक्षात्कारः चैतन्यस्य स्वभावः अस्ति अत्र चैतन्यस्य प्रत्येकं मनुष्य मनुष्यस्य कृते अत्र चैतन्यः इति अन्तर्भूतः अस्ति एव एतत् मनुष्यस्य अनन्तरम् अत्र ब्रह्मणः साक्षात्कारः द्रष्टुं शक्यते चेत् एव अत्र चैतन्यस्य स्वभावः वयम् वा, अत्र द्रष्टुम् अनन्तरम् अनुभवपूर्वेण किम् अनुभवः स्वीकर्तुं शक्यते एव इत्युक्ते अत्र पश्यतु आङ्ग्लभाषायां लिखितमस्ति द नेचर् आफ् द कान्शियस्नेस् इस् टु सीक् पि इन् फैनैट् तदेव उत्तर उक्तं चैतन्यस्य स्वभावः इत्युक्ते द नेचर् आफ् कान्शियस्नेस् इस् टु सीक् बि इन् फैनैट् ब्रह्मणः साक्षात्कारः एव चैतन्यस्य स्वभावः इत्यर्थः आगतं खलु आम् महोदय अग्रे इदानीं केवलं ये मनुष्याः चैतन्यस्य उपयोगं कृत्वा तस्य आदेशात् आदेशान् आद। च पालयन्ति आदेशान् च पालयन्ति आदेशान ते एव मनुष्याः इति वक्तुमार्गाः मनुष्यस्य स्वभावः अनन्तरम् अत्र कार्यमस्ति चेत् चैतन्यस्य अत्र उपयोगम् अत्र स्वाभाविकरूपेण सात्विकं राजसम् अनन्तरं तामसमिति अस्ति चैतन्यस्य उपयोगं कृत्वा अत्र सत् विषये गच्छेम अनन्तरं तस्य आदेशान् अपि च पालनं कर्तुं शक्यते चेत् अत्र मनुष्याः इत्येव वक्तुं शक्यते एव अर्घः mm. पालनं करणीयम चैतन्यस्य स्व प्रयोगं कुर्मः अनन्तरम् अत्र पालनमपि करणीयमिव अतः प्रत्येकमनुष्यः स्वस्य प्रतिबिम्बत्वचैतन्यस्य सम्पूर्णप्रयोगेन मानवः इति सम्बोधना सम्बोधनार्थत्वम् अर्ह अर्जयति अनन्तरमेव मनुष्यस्य स्वभावः इति सम्बोधनमस्ति खलु अत्र एक एतत् सः एव मनुष्यः इति यः पश्यति सः एव पश्यति इति भगवद्गीता अपि भगवान् उक्त भगवतः उक्तवान् सत्यम् अतः तत्र स च मनुष्यः पश्यति यत् स्वस्य अथवा स्वस्याः धर्मः वा, वा स्वभावः केवलम् अनन्तस्य भ्रह्मणः अन्वेषणम् एव प्रतिदिनम् अस्माकं कृते किं आ, किं भवति चेत् कारणार्थम् अनन्तरं स्वपिति सो, मिथुनम् तावदेव चलन्ति परन्तु ब्रह्मणः विषये अन्वेषणाय कोपि न प्रयत्नं कृतवन्तः परन्तु करणीयमेव केवलम् अनन्तस्य भ्रमणः अन्वेषणमेव ब्रह्मप्राप्ते एषणा एव मनुष्याणां सहजः धर्मः वा गुणः अस्ति ब्रह्मम् अस्ति एतत् ज्ञात्वा तस्य प्राप्ते एव एष न अस्ति चेत् एतदपि अत्र सहजधर्मः वा गुणः वा इति अत्र ज्ञातुं शक्यते एव सः एव मनुष्याणां मनुष्यत्वस्य लक्षणं भवति ब्रह्मणः अन्वेषणं करणीयम् एतदेव मनुष्याणां मनुष्यत्व मनुष्यानां तिष्ठति यत् मनुष्यत्वम् एतदेव लक्षणं भवति इति तत्र दत्तं वदति सम्यक् सम्यक् समीचीनं सम्यक्तया उक्तवती आम् इत्युक्ते मनुष्यस्य धर्मः इति बहु सरलः धर्मः सरलः अस्ति खलु मनुष्यधर्मस्य व्याख्या सरला अस्ति द पायिण्ट् आफ़् हियर् इस् वेरि वेरि सिम्पल् एक्स्प्लनेशन् आफ़् मानव धर्म इस् वेरि सिम्पल् but even then it is proved to be extremely difficult to the human society yadi api bahu sarala asti tathapi manava samajasya krute atyantam katinyam vartate yadi api vayam varam varam shunmaha ananteshana ananteshana ananteshana iti shunmaha parantu tathapi vayam agachamaha va yada atra varge vayam smaha tadane shunmaha tadane yada griham prati gachcha maha atva anya karya prati gachcha maha tadane tase smaranam api na bhavati ananteshana iti smaranam na bhavati kimartham यतोहि वयं न अवगच्छामः इति एव विषयः अस्ति तदर्थमेव अस्मिन् करपत्रे वारं, वारं उच्यते अनन्तेष्ण अनन्तेष्ण अनन्तेष्ण ब्रह्मणः साक्षात्कारः इति किमर्थम् इति चेत् न अवगम्यते यत्किपि सरलः विषयः अस्ति परन्तु अस्माभिः न अवगम्यते अस्माकं कृते अत्यन्तं काठिन्यं वर्तते सामान्यसमाजे वा रिलिजिन् रिलिजन् मध्ये अपि वयं वा, पश्यामः चेत् एतादृशपरिभाषा धर्मस्य परिभाषा अन्यत्र न लभ्यते अन्यत्र धर्मके परिभाषा भिन्ना एव वर्तते अत्र धर्मस्य व्याख्यानं यदत्र उक्तमस्ति तद् सार्वत्रिकम् अस्ति धर्मः मनुष्याणां धर्मः नाना न सन्ति नानाधर्मः नास्ति अस्माकम् एकः एव धर्मः अस्ति मनुष्यत्वधर्मः सः धर्मः सार्वत्रिकः अस्ति सर्वेषां कृते एकः एव अस्ति सः धर्मः कालाधारेण अथवा व्यक्तेः आधारेण तस्य परिवर्तनं नास्ति परिवर्तनं नास्ति तद् एतत् सर्वं इत्युक्ते तादृशधर्मस्य सीमा एव नास्ति कालाधारेण तस्य परिवर्तनं नास्ति स्थानस्य आधारेण परिवर्तनं नास्ति व्यक्तेः आधारेण धर्मस्य परिवर्तनं नास्ति धर्मः एकः अस्ति सर्वेषां कृते एकः धर्मः अस्ति अत्र तु वयम् अत्र लोके यद्वयं वदामः आश्रमधर्मः तस्य विषये वयं न वदामः धर्मः इत्युक्ते अत्र यः धर्मः सार्वत्रिकः धर्मः सर्वेषु मनुष्येषु यः धर्मः वर्तते सः धर्मः समानः धर्मः अस्ति सरि तर्हि सर्वे सर्वे मनुष्याः अनन्तकामबलेन एव ते मनुष्याः सन्ति यदि मनुष्येषु अनन्तकामना नास्ति तर्हि सः मनुष्यः एव नास्ति तर्हि मनु इति यद्वदामः तदेव अनन्तकामना अनन्तकामना एव मनुष्यत्वं तदर्थमेव सः मनुष्यः अस्ति तं कामम् अनुसृत्य ये प्रवर्तन्ते ते अनन्तसत्तया एव तुष्यन्ति ये तत् ता तादृशकामः ता अस्ति इति ये अवगच्छन्ति तर्हि तस्य कामस्य पालनार्थं ते प्रयत्नं कुर्वन्ति ते जनाः अनन्तसत्तया सत्तया एव ते तुष्यन्ति ते एव वास्तविकरूपेण मनुष्याः सन्ति बहु सरलमस्ति खलु बहु अतीवसुन्दरमपि अस्ति बहु सरलमस्ति परन्तु इत्युक्ते मनुष्यधर्मः कः इति जनाः अवगच्छन्ति चेत् तर्हि लोके युद्धः युद्ध युद्ध युद्ध युद्ध युद्ध एव युद्धमेव न भवति अत्र अद्यत्वे बहुत्र युद्ध युद्धं प्रचलति खलु तर्हि तादृशयुद्धम् अपि न भवति यदि जनाः स्वधर्मः कः इति अवगच्छन्ति तर्हि वयम् अवगन्तुं शक्नुमः वयं सर्वे अपि एकस्मात् स्रोतः एव विकसिताः एक एकस्मात् अवर्सोर्स् इस् द सेम् फ्रम् विच् विनेटेड् सो एतत् सर्वं वयम् अवगच्छामः चेत् तदानीं तत्र युद्धस्य अवकाशः अपि नास्ति किमर्थं युद्धं करणीयम् अस्माभिः इति तदर्थं तत्र, तत्र मनुष्यदर्वः कः इति सर्वैः अवगन्तव्यः तदानीं लोके शान्तिः भवति लोके सर्वे जनाः आध्यात्मिकचिन्तने प्रवृत्ताः भवन्ति तर्हि तत्र अन्यस्मिन् विषये तेषां चिन्तनं न भवति तत्र अद्यत्वे प्रायेण लोके युद्धं किमर्थं भवति धनस्य कृते भवति अथवा धर्मस्य इत्युक्ते तत्र रिलिजन् कृते भवति मम रिलिजन् सुपेरियर् युआर् रिलिजन् इस् नाट् सुपेरियर् इति तदर्थं तत्र युद्धं भवति किमर्थं चेत् तत्र विश्वे जनाः अत्र वास्तविकतथ्यं न अवगच्छन्ति तेषां ते, ते सर्वे किं निरर्थकतया युद्धे प्रवृत्ताः सन्ति एतत् सर्वं यद् युद, यद, युद्ध यद् युद्धं प्रवर्तते सर्वत्र बहुत्र ते सर्वत्र ते तु भूमिः भूमेः विषयः भवति अथवा रिलिजन् भवति इति एतादृशस्थूलविषयेषु एव तेषां युद्धं युद्धं भवति तर्हि मनुष्यः तथा मनुष्यैः तथा न व्यवहर्तव्यं मनुष्यत्वस्य कः अर्थः इति सर्वैः अवगन्तव्यम् इयं शिक्षा अतीव सरला अस्ति सार्वत्रिकी श अस्ति शिक्षा जगति सर्वैः सह अस्माकं व्यवहारे सम्भाषणेषु च अस्य गहनः प्रभावः भवति इत्युक्ते यः मानवधर्मः कः इति अवगच्छन्ति तर्हि तस्य प्रभावः अन्यस्य अन्येषां कृते अपि तस्य प्रभावः भवति मम व्यवहारः सम्यक् अस्ति चेत् तादृशव्यवहारस्य प्रभावः अन्येषाम् उपरि अपि भवति यदा अन्येषाम् उपरि अपि भवति तर्हि तत्र समाजे परिवर्तनं जायते अतः एकः योगी अस्ति चेत् यः उचितः अस्मिन् मार्गे प्रतिष्ठितः अस्ति चेत् तस्य प्रभावः अन्यत्र अन्येषु अपि भवति तर्हि अन्येषामपि उन्नयनार्थम् अवश्यक अव अवकाशः भवति तर्हि तत्र लोके ये जातिवादः अथवा अन्ये ये डिस्क्रिमिनेशन्स् अन्ये ये सन्ति तत्सर्वं नश्यति यतोहि एतादृशभेदः किमर्थमस्ति चेत् ते मानवः मानवत्वं नाम किमिति न अवगच्छन्ति तर्हि मनुष्यस्य लक्षणं सार्वत्रिकमस्ति तत्र समूहवादः अथवा तत्र कुलविशेषः इत्युक्ते केस्टिजम् जाति जातिवादः एतत् सर्वं तु लघुचिन्तनम् तत्र मान मानसिकरोगः अस्ति मानसिकरोगः अस्ति ते मनुष्यत्वं नाम इति न अवगच्छन्ति इति कृत्वा एतादृशव्यवहारः अस्ति तर्हि अत्र यद् उक्तं बहु बहु भह सरलः विषयः अस्ति अतीवसुन्दरः अपि विषयः अस्ति तर्हि अस्माकं जीवनस्य अस्माकं लक्ष्याणां मार्गदर्शनाय व्यक्तिगतस्तरे अपि गहनः प्रभावः अस्ति अस्य विषयस्य अपि च सामाजिकस्तरे अपि अस्य विषयस्य गहनः प्रभावः अस्ति धर्मः कः इति वयम् अवगच्छामः चेत् तादृशविचारः सर्वत्र प्रवर्तते इत्युक्ते व्यक्तिगतस्तरे अपि प्रभावः मान मानसिकस्तरे प्रभावः अपि च सामाजिकस्तरे अपि प्रभावः यदा वय सम्यक् मार्गे गच्छामि तदानीम् अन्यानपि प्रेरयितुं शक्नोमि खलु उचितः मार्गः कः इति अहं जानामि अहमपि आचरोमि आचरणं करोमि तदानीम् अन्यानपि अहं प्रोत्साहयितुं शक्नोमि इति अत्र अस्मिन् परिच्छेदे उक्तमस्ति अस्तु कोपि प्रश्नः अस्ति तर्हि अग्रे अस्तु श्रान्ताभगिनी पठितुमिच्छति वा अग्रे अस्तु तर्हि सरला भगिनी पठतु पठति वा भगिनी सा श्रान्ताभगिनी आम् अस्तु पठुतः नमस्कारः प्रतिबिम्बतचैतन्यम् एव जनान् पशु पशुभ्यः आनन्दः सः लभ्यते यदिष्टं तन्न लभते चेत् मनुष्यः आनन्दी न भवति सः मनुष्यः दुःखी छिन्नः न भवति च भवति मनुष्येषु विद्यमानं स्पष्टं प्रतिबिम्बितचैतन्यम् एव जनान् पशुभ्यः पृथक् करोति येन मनुष्यः तद्ब्रह्म अथवा आनन्दम् अन्विषति तथा च जनाः तथैव वास्तविकम् आनन्दं प्राप्नुवन्ति यदा ते ब्रह्म प्राप्तुं शक्नुवन्ति अथवा तस्य प्राप्तिप्रक्रियायां प्रविशन्ति चैतन्यम् लौकिकपदार्थात् आनन्दं नेच्छति अतः एते सर्वे परिमितपदार्थाः ब्रह्म तोषयितुं न शक्नुवन्ति मनुष्याणां धर्मः अनंतस्य परब्रह्म प्राप्तिः एव इति निगमनं वयं प्राप्नुमः अनेन धर्मेण एव मनुष्याः आनन्दं च भोक्तुं शक्नुवन्ति वदय भगिनी अत्र किमस्ति इति वदतु अत्र अत्र अस्मिन् परिच्छेदे किम् अस्ति एकवारं वदतु प्रतिपादनं करोतु एक्स्प्न् वाट् इस् दर् इन् वट् यु अण्ड् मनुष्या भवतशुभ्यः एव प्रसक्तः भवन्ति केनचित् वयं चिन्तयामः धर्मः कः अस्ति धर्मः अधर्मः किम् अस्ति इति पुरुषार्थं प्रति गच्छात् वयं चिन्तितः भवन्ति किन्तु पशुभ्यः इदानीं चिन्तनं न कुर्वन् शक्नो शक्नोति यदि uh, वयम वयं धर्मं प्रति गच्छामः तथा दुःखान् परिजयत uh, uh, uh, सह सा, सहतुम् अथवा सुखं प्राप्तुम् आनन्दं प्राप्तुं वयं uh, शक्नुमः तदेव वयं पुरुषार्थं लभितुं प्राप्तुं ने नेयति अथवा मम शाश्वतसुखम् एवम् आनन्दमेव भोक्तुं शक्नुमः इति अहं धन्यवादः अस्तु आं तर्हि इत्युक्ते यदा अस्माकं किमपि इच्छा जायते अस्माकं मनसि इच्छा जायति. यदा इच्छायाः पूर्तिः भवति तदानीं वयम् आनन्दं प्राप्नुमः खलु इति सामान्यतया सर्वेषां व्यवहारः एव अस्ति अहं किमपि इच्छामि मम मम तु कस्यचित् वस्तुनः ज्ञानमस्ति तस्य इच्छा मम मनसि जागरिता यदा सा, सा, सा तद्वस्तु प्राप्यते तदानीम् अस्माभिः सुखम् अनुभूयते यद् यद् इष्टं तद् लब् तद् न लभ्यते चेत् तत्र वयं दुःखी भवामः वयं खिन्नः भवामः तर्हि अस्माभिः पूर्वमपि चर्चितं यत् मनुष्येषु प्रतिबिम्बितचैतन्यं यद्वर्तते तत् स्पष्टतया वर्तते इति कृत्वा मनुष्यः पशुभ्यः भिन्नः अस्ति अन्येषु चैतन्यं स्पष्टतया नास्ति मनुष्येषु चैतन्यं स्पष्टतया वर्तते इति कृत्वा वयम् उचितं किम् अनुचितं किम् इति वयं निर्णेतुं शक्नुमः तर्हि अत्र स्पष्टतया यत् प्रतिबिम्बितचैतन्यं वर्तते तद् तदाधारेण एव अस्माकं मनुष्येषु ब्रह्मणः अन्वेषणे रुचिः अस्ति भ्रमणः अन्वेषणे रुचिः अस्ति यतोहि सा सप्ताह अनन्ता वर्तते यतोहि अस्माकं किमपि अनन्तम् अस्माभिः प्राप्तव्यं तादृश अनन्तप्राप्तिद्वारा एव अस्माकम् आकाङ्क्षायाः अस्माकम् पूर्तिः भवति तदेव तस्मादेव वास्तविक आनन्दम् अस्माभिः प्राप्तुं शक्यते खलु इति कृत्वा तत्र वास्तविकसुखं प्राप्तुं मनुष्यः यत्नं करोति तर्हि चैतन्यम् अस्माकं यद् स्पष्टतया प्रतिबिम्बितचैतन्यं वर्तते तत्तु लौकिकपदार्थात् कदापि सुखं न प्राप्तुं शक्नोति कदापि आनन्दं प्राप्तुं न शक्नोति यतोहि किमर्थं चेत् ये लौकिकपदार्थाः परिमिताः सन्ति सीमिताः सन्ति दे हेव् अ लिमिट् तर्हि ते न सन्ति लौकिकपदार्थाः अनन्ताः न सन्ति तर्हि लौकिकपदार्थाः तत्र अस्माकम् अन्ते यत् चैतन्यं वर्तते तत् चैतन्यम् अनन्तं वर्तते अतः तद् प्राप्ति एव तुष्यति तर्हि लौकिकवस्तुभ्यः तस्य तोषणं कदापि न भवति ब्रह्मणः तोषणं कदापि परिमितपदार्थेभ्यः न भवति तर्हि मनुष्याणां धर्मः अनन्तस्य परब्रह्मणः प्राप्तिः एव अत्र अस्माकं धर्मः तेन एव अस्माकम् आनन्दः जायते अनेन अनेन अस्य धर्मस्य आचरणेन अस्माभिः शाश्वतसुखम् आनन्दम् अनन्तं सुखम् प्राप्तुं शक्नुमः तद् लौकिकपदार्थेभ्यः यद् सुखं वयं प्राप्नुमः तत्तु सुखं दुःखं सुखं दुःखं सुखं दुःखम् इति एवं सुखं लभ्यते क्षणिकं भवति पुनः दुःखं भवति पुनः सुखं भवति पुनः दुःखं भवति इति एतत् सर्वं क्षणिकमस्ति परन्तु ब्रह्मणः साक्षात्कारात् यद् सुखं लभ्यते तत् सुखम् अनन्तं सुखम् अस्ति लौकिकवस्तुभ्यः सुखम् अनन्तं नास्ति तस्य अन्तमस्ति अहं किमपि प्राप्नोमि सुखं भवति तदनन्तरं तस्य अन्तः भव सुखस्य अन्तः भवति परन्तु अनन्तप्राप्तिद्वारा यत् सुखं लभ्यते तत् सुखं निरन्तरम् अस्ति अनन्तमस्ति कदापि तस्य समाप्तिः भवति इति कृत्वा वयं सर्वदा सन्तुष्टाः भवामः यदा लौकिकवस् वस्तुनः प्राप्तिद्वारा अस्माकं सुखं भवति तत्तु क्षणिकं तस्मादेव वयं तु प्रेरिताः एतावता प्रेरिताः वयं भवामः लौकिकवस्तु वस्तुतः एव वयम् एतावता प्रेरितः भवामः तर्हि तत्र अनन्तस्य प्राप्तिः भवति चेत् तत्र पश्यन्तु अस्माकं कियत् आनन्दं लभ्यते यत् तस्य अन्तः कदापि न भवति सर्वदा वयम् आनन्दितः एव भवामः इति तादृशी अवस्था अवस्था कथं भवितुम् अर्हति इति चिन्तयन्तु अत्र चिन्तने तत्र बहु रुचिकरः अस्ति अहं सर्वदा स्तुकि इति अस्ति चेत् कियत् सम्यक् भवति खलु अत्र लौके लोके तु सर्वेषां कृते कदाचित् दुःखं भवति कदाचित् सुखं भवति कियत् कालमिति वक्तुं शक्नुमः कदाचित् सुखं भवति कदाचित् दुःखं भवति परन्तु यदा अहं शक्नोमि अहं सर्वदा सुखी इति चेत् कियत् सम्यक् भवति खलु अतः तादृश अहं सर्वदा सुखी इति अनुभवः अस्माकम् अपेक्षितः अस्ति तदर्थम् यत्नः करणीयः अस्ति अत्र इत्युक्ते यदिष्टं तत् चेत् सुखं भवति यदिष्टं न लभ्यते चेत् तर्हि अहं सुखी इति वक्तुं न इति अत्र सार्वत्रिकः नियमः अस्ति सर्वेषां मनुष्याणां कृते समानम् अस्ति यत् यदिष्टं तत् चेत् सुखी सर्वेषु मनुष्येषु एवं प्रवर्तते खलु अत्र विचारः अस्ति यत् वस्तुतः मनुष्यत्वस्य बलेन कश्चन पुरुषः अनन्तमिच्छति किमर्थं मनुष्यः अनन्तमिच्छति इति चेत् तत्र तस्मिन् मनुष्यत्वम् इति धर्मः अस्ति तादृशधर्मस्य बलेन एव सः अनन्तमिच्छति तर्हि परिमितवस्तुभ्यः तृप्तिः न भवितुम् अर्हति अतः अत्र यद् उक्तं तत्र वाक्यानां तात्पर्यम् एवम् यत् मनुष्यत्वस्य बलेन वयम् अनन्तम् इच्छामः किन्तु मानवेषु बहवः स्वजीवने अनन्तस्य अन्वेषणे न प्रवृत्ताः तस्मात् ते सुखिनः भवितुं न शक्नुवन्ति इति निष्कर्षः ते तेन प्रयत्नः एव न कृतः चेत् ते तर्हि कथं सुखिनः भवितुम् अर्हन्ति एतदेव सत्यं तत्र अनन्तस्य अन्वेषणे बहवः जनाः प्रवृत्ताः न सन्ति अतः ते सुखिनः कदापि न भवितुम् अर्हन्ति जनाः सम्पू स्वस्य सम्पूर्णजीवने ते किं कुर्वन्ति इति चेत् अहं सुखी इति ते प्रदर्शयन्ति अन्येषां कृते ते दर्शनं कुर्वन्ति ओ सुखी बहु सुखी अस्मि अहं सुखी अस्मि इत्युक्ते तदर्थमेव वयं पश्यामः चेत् फेस्बुक् मध्ये तत्र जनाः तत्र चित्राणि स्थापयन्ति अहम् ओ अहं कियत् सुखी अस्मि पश्यन्तु पश्यन्तु अहं कियत् सुखी अस्मि अहम् अत्र गतवती अथवा एतत् एवं प्रदर्शनं कुर्वन्ति खलु एतत् सर्वं दृष्ट्वा अन्ये अन्ये जनाः चिन्तयन्ति ओ सः बहु सुखी अस्ति इति ते चिन्तयन्ति परन्तु पृष्ठतः वयं गच्छामः चेत् तत्र पिहितद्वारस्य पृष्ठतः वयं गच्छामः चेत् तेषां गृहे वयं गच्छामः चेत् तत्र अन्यत् किमपि प्रचलति केवलं फेस्बुक् मध्ये चित्राणि एवम् एवं सन्ति परन्तु गृहे तु वस्तुस्थितिः भिन्ना अस्ति अन्यत् किमपि प्रचलति सर्वे दुःखी दुःखिनः सन्ति बहवः क्लेशाः समस्याः सन्ति गृहे तत्र तत्र किं युद्धमेव प्रचलति एकः अन्ये अन्यस्य किं तत्र एकः एकः सन्तुष्टः नास्ति इत्युक्ते पे तेषां मध्ये झगडा भवति युद्धमेव भवति तर्हि कदाचित् कश्चन तत्र आत्महत्यामपि कर्तुम् इच्छति अथवा कस् कश्चन पुरुषः बहु ओवर्वेय्ट् अस्ति इति कृत्वा बहु दुःखी अस्ति अथवा कश्चन छा छात्रः अस्ति सः विद्यालये सफलः सा साफल्यं प्राप्तम् इति कृत्वा सः दुःखी अस्ति इति एवं रीत्या गृहे भिन्नभिन्नसमस्याः भवन्ति इति कृत्वा सर्वे जनाः दुःखिनः भवन्ति परन्तु तान् विषयान् तेन वदन्ति बहिः तान् विषयान् न वदन्ति कदाचित् जनाः तत्र विवाहविच्छेदमपि कुर्वन्ति अथवा ये न कृतवन्तः अहं विवाहविच्छ विच्छेदं कर्तुम् इच्छामि इति अपि ते वदन्ति इति एते विषयाः बहिः न वदति एतान् विषयान् न वदन्ति तर्हि वस्तुतः अन्यत् एव किमपि प्रचलति तर्हि समग्ररूपेण वयं पश्यामः चेत् अद्य अद्य का इति चेत् मानवसमाजः दुःखितः अस्ति तत्र मेजोरिटि आफ् द पीपल् आर् सेड् इन् दिस् वर्ल्ड् फ़ार् सम् रीज़न् आर् दि अदर् ते देर् नाट् एबल् टु मेनेज् देयर् लैफ् अत्र यदिष्टं तद् न अत्र यथा अस्मिन् परिचयते उक्तं यदिष्टं तद् न लभ्यते चेत् ते सुखी न भवितुम् अर्हन्ति इत्युक्ते अहं किमपि इच्छामि तद् न प्राप्यते इति कृत्वा अहं दुःखी अहं कदापि सुखी न भवितुम् अर्हामि तर्हि तत्र बहुमतस्य जनानां च एषा मूलभूता कथा दिस् इस् द स्टोरि आफ् मेजोरिटि आफ़् द पीपल् इन् द वर्ल्ड् ते बहिः अन्यत् किमपि प्रदर्शयन्ति ओ अहं सुखी अस्मि अहम् एतत् करोमि तत् करोमि इति किमपि कस्यचित् पृष्टतः धावन्ति इत्युक्ते अहम् इतोपि अधिकं शिक्षां प्राप्नोमि अथवा इतोपि अधिकं धनं सम्पादयामि इतोपि अधिकं डिग्री प्राप्नोमि इति एवं रीत्या प्रदर्शनं कुर्वन्ति परन्तु वस्तुस्थितिः भिन्ना गृहे वयं गच्छामः चेत् ज्ञातुं शक्नुमः ते बहु बहु बहु असन्तुष्टाः सन्ति इति ज्ञातुं शक्नुमः जनाः सुखिनः न भवन्ति यतोहि वास्तविकता एषा यत् मानवाः अनन्तपरिचयम् इच्छन्ति द पीपल् वाण्ट् ऐडेण्टिटि वित् दि इन्फैनैट् तथा च जनः अनन्तपरिचयस्य अन्वेषणे न प्रवृत्ताः सन्ति दे आर् नाट् एङ्गेज् इन् स्पीकिङ्ग् दि इन्फैनैट् मोस्ट् आफ़् द पीपल् आर् नाट् एङ्गेज् इन् स्पीकिङ्ग् द इन्फैनैट् सो हौ केन् दि बि हेपि ते कथं भवितुम् अर्हन्ति यतोहि वयं सर्वे अनन्तमेव इच्छामः वयं न जानीमः चिन्तयामः अस्मिन् क्षणे अहम् एतदिच्छामि अहं किं कार् यानम् इच्छामि इति अहं चिन्तयामि इति कृत्वा अहं कार्यानं क्रेतुम् अथवा कार्यानं कथं मया प्राप्तव्यम् इति तस्मिन् विषये अहं चिन्तनं करोमि तस्मिन् विषये एव अहं प्रवृत्तः अस्मि चेत् कार्यानं प्राप्यते चेदपि मम सन्तोषः न भवति यतोहि मम वास्तविकसन्तोषः कदा भवति इति चेत् भ्रमणः प्राप्तिद्वारा एव मम वास्तविक वास्तविकसन्तोषः भवति तत् अहं न जानामि अतः अन्यस्य विषये अहम् अन्वेषणं करोमि तत् प्राप्यते चेदपि सन्तोषः न लभ्यते इति एव वास्तविकस्थितिः अद्यत्वे अस्ति तर्हि सर्वे आनन्देन सह तादात्म्यम् इच्छन्ति दे वाण्ट् ऐडेण्टिटि वित् दि इन्फैनैट्जिङ्ग् वि द इन्फैनैट् इस् वाट् एव्रिबडि वाण्ट् रैट् परन्तु ते तद् न अन्विषन्ति यदि चेत् तद् न अन्विषन्ति तर्हि ते तत् न प्राप्तुं प्राप्तुं शक्नुवन्ति अतः सर्वे दुःखिताः सन्ति तथा च ते तदर्थं किं कुर्वन्ति दुःखिताः सन्ति तदर्थं ते किं किं कुर्वन्ति तत्र भोजनद्वारा अथवा मद्यपानद्वारा अथवा युनो ड्रग्स् स्वीकुर्वन्ति अथवा तत्र केचन तत्र डिस्को गच्छन्ति इत्येवम् अथवा म्यूसिक् कान्सर्ट् गच्छन्ति इत्येवं अन्यत्र अन्यत्र गत्वा सुखस्य अन्वेषणं कुर्वन्ति परन्तु तथापि तेषां दुःखस्य निवारणं न भवति तर् जनाः स्वस्य दुःखस्य विस्मरणं कर्तुं विस्मर्तुं ते प्रयतन्ते दुःखस्य विस्मरणार्थं ते प्रयतन्ते परन्तु सत्यं तु एतद् मनुष्यत्वेन के इति ते अवगच्छन्ति वस्तुतः ते मानवाः सन्ति किञ्च मनुष्यत्वम् अनन्तस्य अन्वेषणं मनुष्यत्वं नाम अनंतस्य अन्वेषणम् इति ते न जानन्ति तस्य च कारणात् ते, ते, ते लौकिकवस्तुभ्यः का स्वयम् एव Tatra, Tatra Svayameva, they think that the, the, the Laugika Vastu is the medicine for their problem Iti kritva te tasmineva pravurthaha Shanti, tarhi Kimartham etadrishi, etadrishi gathihi iti chet We've been all wrongly educated by the society By the people around us, by the Poonjipathis, the capitalists Tebhyaha, vayam kimavagachamaha iti chet लौकिकवस्तु वस्तु प्राप्यते चेत् वयं सन्तुष्टाः भवामः इति तादृशी शिक्षा अस्ति अद्यत्वे इति कृत्वा तत्र एतानि सर्वाणि वस्तूनि आडम्बरपूर् पूर्णानि वस्तूनि अथवा वस्त्राणि अथवा यत्किमपि भवतु नाम तद् तस्य विक्रयणं कुर्मः चेत् तदानीम् अहं सुखी इति तादृशी शिक्षा अस्ति परन्तु मनुष्याः एवं सुखं प्राप्तुं न शक्नुवन्ति यदिष्टं तत् प्राप्य सुखं लभ्यते प्रथमम् अस्माभिः ज्ञातव्यं किम् इच्छामः वयं किम् इच्छामः यदि किम् इच्छामः इति न जान जानीमः तर्हि कथं तत् प्राप्तुम् अस्माभिः प्रयत्नं कर्तुं शक्नुमः जनाः न अवगच्छन्ति यत् तेषाम् अनन्तेषण अस्ति अतः कथं ते तवस्तु प्राप्तुं प्रयत्नं कर्तुं शक्नुमः तद् न अवगच्छन्ति परन्तु तेषां पशुकामनाविषये ते जानन्ति एव तत्र पशुकामना इत्युक्ते तत् लौकिकवस्तु तस्य विषये कामना अस्ति इति ते जानन्ति इति कृत्वा तान् तानि प्राप्तुं ते प्रयतन्ते तेषां कृते एतत्तु अतीव प्रसिद्धविषयः अस्ति परिचितविषयः अस्ति यतोहि अस्माकं पशुधर्मः अपि अस्ति युगपर्यन्तं तस्य एव पालनं कृतवन्तः अस्माकं बहूनि पूर्वजन्मनि जन्मानि आसन् अतः ते स्वस्य सम्पूर्णजीवने जन्मतः मृत्तिपर्यन्तं सर्वं समयं यापयन्ति लौकिकवस्तुनः प्राप्त्यर्थम् अनन्तस्य विषये स्वस्य आन्तरिक इच्छा पूरयितुं सर्वेषां सर्वेषु मनुष्येषु आन्तरिक इच्छा वर्तते अनन्तस्य प्राप्त्यर्थं तादृशी तादृशी इच्छायाः तादृश पूर्त्यर्थं ते परिमितवस्तु वस्तूनां माध्यमेन प्रयतन्ते तेषां एतेषां कृते अनन्तेषा अस्ति इति ते न अवगच्छन्ति अतः किं भवति इति चेत् कार्यं न करोति किमपि इच्छा किमपि अस्ति परन्तु ते अन्यत् किमपि प्रयत्नं कृत्वा ते प्राप्नोति ते प्राप्नुवन्ति तर्हि कार्यं न करोति अतः ते सुखिनः न सन्ति जनाः सुखिनः न भवन्ति एतदेव कारणं यत्र कश्चित् स्वस्मिन् स्पष्टतया प्रतिबिम्बितचैतन्यम् अस्ति इति ज्ञात्वा स्वमनुष्यत्वेन नतु तु पशु पशुत्वेन इति अवगम्य अनन्तस्य अन्वेषणे प्रवृत्तः भवति तदानीं सः आनन्दं प्राप्तुं शक्नोति परमपुरुषः परमचैतन्यम् अस्मिन् जगति सर्वस्य मार्गदर्शनं करोति रैट् तत्र कास्मिक् एण्टिटि कास्मिक् एण्टिटि गैड्स् एव्रि एव्रीबडि इन् दिस् अतः वयं जानीमः अस्मिन् जगति यत्किमपि भवति तत् Coincidence nothing. Anything that happens in this world is not a coincidence. Everything has a karyakarana bhava. Karyakarana bhava anuswarana eva sarvam bhavati. Sarvam cha krameyana bhavati. That's the etasma abhi pooruma abhi ukta. That's the sarvam karyam karyakarana bhava anuswaram pravartate yattara vain pashyamaha jeth. That's the Surya mandalaha, that's the graha, the planet, the, uh, the solar system, everything they nicely go around an orbit and they have a system right atra samagri samagre samagre jagati sarvam atyantam kramabaddam asti we have an order right ataha yata kasechit prakoshta asti tatra vayam gachavah cet yada sv prakoshta svaccha asti tarhi vayam gnyatum shaktumah oka kasechit ite kanchit purusha ha itite ekan purusha ha atra agatya Uh, स्वच्छीकृतवान् आस् आसीत् इति वयम् ऊहं कर्तुं शक्नुमः खलु तथैव अस्मिन् ब्रह्माण्डे यत् सर्वं सूर्यः यत्र भवेत् तत्रैव अस्ति यत् यदा तत्र तस्य उदयः भवेत् तदानीमेव तस्य उदयः भवति इति वयं सर्वं पश्यामः चेत् नक्षत्राणि यत्र भवेयुः तत्र सन्ति इति वयं सर्वं पश्यामः चेत् जगति सर्वं क्रमबद्धम् अस्ति तद्दृष्ट्वा वयम् अवगन्तुं शक्नुमः जगतः पृष्टतः कश्चन किञ्चित् चैतन्यं वर्तते इति वयम् अवगन्तुं शक्नुमः यद्यपि न दृश्यते चैतन्यं न दृश्यते तथापि वयम् अवगन्तुं शक्नुमः यथा प्रकोष्ठे कश्चन अस्ति इति अवगन्तुं शक्नुमः तथैव प्रकोष्ठे कश्चन आसीत् यः प्रकोष्ठस्य स्वच्छीकरणं कृतवान् इति वयम् अवगन्तुं शक्नुमः तथैव जगतः पृष्टतः किञ्चित् चैतन्यं वर्तते इति वयम् अवगन्तुं शक्नुमः यः अस्य यत् चैतन्यम् अस्य जगतः क्रमस्य विषये चिन्तनं कृतवान् तत् अतः एव सर्वं क्रमबद्धम् अस्ति इति वयम् अवगन्तुं शक्नुमः अतः एव यत् वयं ज्ञातुं शक्नुमः यत् जगत् अतीवव्यवस्थितमस्ति सुव्यवस्थितम् अस्ति सर्वं सर्वं बहु व्यवस्थितम् अस्ति तस्य पृष्ठतः चैतन्यं वर्तते काचित् बुद्धिः अस्ति सा बुद्धिः अनन्ता अस्ति अनन्ता अस्ति सा बुद्धिः एव ब्रह्माण्डीयसत्ता द कास्मिक् एण्टिटि अस्मिन् जगति एकमेव वस्तु अनन्तं भवितुम् अर्हति तत्तु ब्रह्माण्डीयसत्ता तत्र ब्रह्म एव एकमेव वस्तु अनन्तं भवितुम् अर्हति अतः मनुष्याः मनुष्याः तत् ज्ञात्वा तत्र तया सत्तया ऐक्यं प्राप्तुं मनुष्येषु ऐक्यं प्राप्तुं स्वाभाविकी इच्छा वर्तते जनाः तदा एव वास्तविकं सुखं प्राप्नुवन्ति यदा ते ब्रह्माण्डीयसत्तां प्राप्तुं शक्नुवन्ति अथवा तस्य प्राप्तिप्रक्रियायां प्रवेष्टुं शक्नुवन्ति इट् इस् लैक् हु हेव् अटेण्ड् द ब्रह्म आर् हेपि आर् दोस् हु ह् मेड् एफर्ट्स् टु अटेण्ड् ब्रह्म अटेण्डिङ्ग् द्रह्म प्राप्तिप्रक्रियायां येषां प्रवेशः अस्ति ते एव सुखं प्राप्तुं शक्नुवन्ति अत्र बहु महत्त्वपूर्णः विषयः अस्ति इत्युक्ते यदा योगिनः सन्ति ये समाधिं प्राप्नोति समाधिं प्राप्नुवन्ति ते तत्र यदा जीवन्ति तदानीं समाधिं प्राप्नुवन्ति तदानीम् आनन्दं प्राप्नुवन्ति अथवा मृत्युसमये तेषां योगिनां मुक्तिः मोक्षः वा भवति मुक्तिः मोक्षः इति अस्मिन् विषये अग्रे आ, बहु विस्तारचर्चा अस्ति अग्रेषु करपत्रेषु अत्र समाधिः भवतु मुक्तिः एव भवतु मोक्षः भवतु इत्युक्ते तावत्पर्यन्तं यावत्पर्यन्तं समाधिः न प्राप्यते मुक्तिः न प्राप्यते मोक्षः न प्राप्यते तावत्पर्यन्तम् अहं सुखी न भवितुम् अर्हामि इति प्रश्नः इति चेत् तत्र तथा नास्ति इत्युक्ते यः अस्मिन् मार्गे यस्य प्रवेशः जातः अस्मिन् मार्गे सः तदानीमेव सः सुखं प्राप्तुं तेन सुखं प्राप्तुम् आरभ्यते hmm? आ, तेन वास्तविकसुखं प्राप्तुम् आरभ्यते तस्य प्राप्तिप्रक्रियायां यदा प्रवेशः अस्ति तदानीमेव सः सुखं प्राप्तुम् आरभते तत्र इट् इस् अन्बिलीवबल् अण्ड् इट् इस् अ वेरि वेरि इम्पार्टेण्ट् थिङ्ग् तत्र मानवधर्ममार्गे प्रवेशे प्रवेशेन एव अत्यन्तं सुखं लभ्यते मानसिकशान्तिः लभ्यते आनन्दं च लभ्यते एतद् अविश्वासनीयम् अस्ति अन्बिलीविबल् हौ कम् हौ कम् देट् ओन्ली जस् एण्ट्रिङ्ग् इन् इन् मार्ग विस् शुडे नाट् गेट् द समाधि ओर् शुडे नाट् गेट् द मोक्स् बि हेपि नो तथा नास्ति मार्गे यः प्रविष्टः अस्ति तस् तदानीमेव तस्य मार्गदर्शनं भवति सः तस्य मनसि शान्तिः भवति यदा मनः अनंतस्य साक्षारं साक्षात्कारं प्रति गन्तुं प्रवृत्त प्रवृत्तः अस्ति मनः प्रवृत्तमस्ति तदा तदा एव uh, मानवस्य अस्तित्वे अस्तित्वस्य स्पन्दने दि वैब्रेशन् इन् द ह्युमन्स् इन् द्युमन् डि इस् एक्सिस्टेन्स् अ लाट् आफ़् चेञ्ज् देर् इस् महान् महान् परिवर्तनं महत् महत्परिवर्तनं जायते तथा च जीवने शान्तिः आनंदः च जायते तर्हि अत्र मुख्य अयमेव मुख्यः विषयः अस्ति यस्मिन् दिने कश्चन तज्जीवनम् आरबते, तस्मिन्नेव दिने तस्य सर्वं सर्वस्य परिवर्तनं जायते तस्मात् दिवसात् एव परिवर्तनं जायते अतः वास्तवतः स्वधर्मस्य अनु अनुसरणं यदा मनुष्यः आरभते तदा गहनः सा सामञ्जस्य सामञ्जस्यस्य भावः भवति हि फील्स् दि ऐडेण्टिटि वित् दि इन्फैनैट् अस्माकम् पशुधर्मः अस्ति तत्तु सत्यं परन्तु वयं पशवः न स्मः मानवः स्मः खलु वयं मानवाः स्मः अतः यः मानवः मानवधर्मम् अनुसृत्य वर्तते सः तस्य धर्मम् अनुसृत्य वर्तते तदा तदा अत्यन्तं शान्तिः आनन्दं च सः प्राप्नोति तस्मात् एव यदा तस्मिन् मार्गे गच्छति तदानीमेव सः शान्तिम् आनन्दं च प्राप्नोति अयं बहु महान् विषयः अस्ति अतः अत्र साधनाङ्गानि यानि साधनाङ्गानि यो योगासनानि यानि सन्ति तेषां सर्वेषां महत्त्वं किम् इति चेत् तत्र साधनायां सहायमेव ते सर्वे तानि सर्वाणि कुर्वन्ति खलु तर्हि अत्र सुखम् अपि च आनन्दः अनयोः भेदः अस्ति सुखम् इत्युक्ते क्षणिकमस्ति सुखं सुखं क्षणिकम् आनन्दः इति क्षणिकः नास्ति तर्हि आनन्दः नाम कः इति चेत् अनन्तं सुखम् अनन्तं सुखम् अन्लिमिटेड् हेपिनेस् इस् आनन्द इति तत्र मे भेदः लौकिकवस्तुभ्यः सुखमेव लभ्यते क्षणिकं सुखं लभ्यते परन्तु केवलं भ्रमणः आनन्दः लभ्यते तत्र स्वादयुक्तभोजनं करोति चेत् कोऽपि सुखं प्राप्तुं शक्नोति क्षणिकं सुखं प्राप्तुं शक्नोति परन्तु आनन्दं प्राप्तुं न शक्नोति तत् सुखं क्षणिकम् अस्ति तत्र तत्र तस्मिन् सुखे स्थायित्वं नास्ति इट्स् वेरि वेरि टेम्प्ररि अपि संसारस्य सर्वे भोगाः अन्ततो गत्वा दुःखमेव जनयन्ति अतः लौकिकानुभवे सुखं दुःखं सुखं दुःखं सुखं दुःखम् इति एवं भवति सुख सुखानन्तरं दुःखमागच्छति तर्हि यद्वस्तु सुखं दत् येन वस्तुना सुखं दत्तं तद्वस्तु यदा समाप्तं तदानीं पुनः दुःखं भवति दुःखं पुनः दुःखमागच्छति तर्हि वस्तुतः सुखं दुःखं सुखं दुःखम् इति भवति तत्र वयं पश्यामः चेत् तत्र सुखस्य प्राधान्यम् अस्ति वा तत्र चक्ररूपेण सुखं दुःखं सुखं दुःखम् इति भवति तत्र कस्य प्राधान्यं वर्तते इति चेत् दुःखस्य एव प्राधान्यं वर्तते वयं पश्यामः चेत् अस्माकं जीवने अहं मम मम जीवने सुखस्य प्राधान्यम् अस्ति वा, वा इति चेत् न दुःखस्य एव प्राधान्यम् इति सर्वैः अनुभूयते यतः तत्र लौकिकवस्तूनि समाप्तानि भवन्ति सर्वदा लौकिकवस्तूनि समाप्तानि भवन्ति इत्युक्ते ऐ वेन् टु अ वेरि ब्यूटिफुल् वेकेशन् अण्ड् ऐ वास् वेरि हेपि डू तिङ्क् ऐ वास् ह्यापि आल् द टैम् नो वेकेशन् एण्डेड् देन् मै हेपिनेस् आल्सो एन् डेड् तर्हि लौकिकवस्तुनः अन्तः भवति यदा अन्तः भवति तदानीं दुःखमपि आगच्छति अतः वयं लौकिकसुखं न अन्विषामः परन्तु वयम् अनन्तम् अन्विषामः तच्च न सुखं तत्तु आनन्दः अस्ति आनन्दः अस्ति आनन्दः सुखं च न समानम् अनन्तं सुखम् इति वक्तुं शक्नुमः आनन्दः अनन्तं सुखम् इति वक्तुं शक्नुमः तर्हि लौकिकसुखं कदापि अनन्तं न भवितुम् अर्हति तद् स्पष्टतया अवगन्तव्यम् अतः यदा वयम् अनन्तसत्ता सत्तां सत्ता प्राप्तुं प्रयत्नं कुर्मः तदानीं गहनः अनुभवः भवति सः अनुभवः मानवस्य अस्तित्वे स्वरूपतः स्वरूपतः मानवस्य अस्तित्वे परिवर्तनं भवति सम्पूर्णतया परिवर्तनं भवति तेन परिवर्तनेन मनुष्यः यदा अस्मिन् मार्गे प्रविष्टः तदानीं सः आनन्दः अनुभवति आनन्द आनन्दः अनुभवति आनन्दम् अनुभवति इति अस्ति अत्र कोपि प्रश्नः अस्ति वा अस्तु भगिनि एकः प्रश्नः अस्ति नमस्कार अत्र uh, uh, uh, uh, दत्तमस्ति मनुष्या मनुष्यां uh, प्रतिबिम्ब प्रतिबिम्बितचैतन्या साधु किन्तु अन्ये स्पष्टं प्रतिबिम्बितम् अस्ति इट् मीन्स् क्लियर् रिफ्लेक्षन् साधु अन्ये अपि प्रतिबिम्बितं चैतन्यं प्रतिबिम्बितम् एव भवति साधु सर्वत्र प्रतिबिम्बितं भवति परन्तु स्पष्टतया नास्ति अस्तु Because their mental plate is yeah, not so Mami developed. Yeah, the mani-buddy is not Vikasita uh, in uh, Anya. As yeah. I see. Yeah. Mm -hmm. yeah, yeah. The mental plate is not so developed uh, mm -hmm. for, uh, yeah. for it to have the full reflection. Yeah. Mm -hmm. Okay. Okay. Absolutely. Okay. Then, well. anthima, ek, vaakya, trahim, asti, that bhagini bhavati patatu, samapayama. Namishkanam, Lakshanam, mm Dharmaha, Vab, Brahma, Prapti, Eva, Asti. अतः ब्रह्म विद्यते न वा इति अवश्यं परिशीलनीयं भवति यतः यत् वस्तु न विद्यते एव तस्य वस्तुनः प्राप्ति अर्थ सर्वे प्रयत्नाः व्यर्थाः भवेयुः <laughs> अपि तु यत् ब्रह्म विद्यते तर्हि तत् इति सम् असम्भाम् असम् असंभा, अस, अस्माभिः अवश्यं ज्ञेयम् यथा भवती इदानीं भवत् विस्तरेण उक्तवती अस्माकं मनुष्याणां परमधर्म वा विलक्षण यद्धर्म इति अस्ति अनन्त एषा अनन्तस्य प्राप्ति ब्रह्मप्राप्तिः इति अस्ति किन्तु तस्य तत् लक्षणं तद्धर्म वयम् इति अद्यपर्यन्तं वयं न जानीमः इति वयं तस्य प्रति केऽपि पुरुषार कोऽपि प्रसारत् न कुर्मः अपि यत् पुरुषार्थम् अस् अस्माकम् इदानीं पर्यन्तं यत् अस्ति तत् केवलं भौतिकवस्तूनि प्राप्तुं भवति तत् वस्तूनि यथा इदानीं भवती उक्तवती तस्य प्राप्तिः यत् भवति त मनः शान्तः भवति तत्र सुखस्य अनुभ आगच्छति किन्तु तत् केवलं क्षणभङ्गुर भवति तस्य अनन्तरं पुनः अन्यकामना गच्छति तस्य पूर्ति कर्तुं वयं व्य व्यस्ता भवामः अत्र सुख दुःख इति अस्य चक्रम् अलित् च भवति किन्तु यत् अस्माकं शाश्वत सुखं यत्र वयं प्राप्नुमः यत् वयं तत् कदापि तस्य अपूर्तिः न भवति तुष्टि सदायी एव भवति तत् किम् अस्ति तत् ब्रह्मप्राप्तिः तस्य प्रति कथं वयं न किमपि पुरुषार्थं नु कु न कुर्मः इति बह इति बहु अस्म विस्म विस्म विस्मय विस्मय इति गाथा अस्ति अस्माकं इति कथं वयं व्यर्थम् अप्न अस्माकं जीवनं इदानीं व्यथिताः इति तु न साधु किन्तु कि तस्य परिवर्तनं करणीयम् इति अस्माकं परम धर्म अस्ति कथं ज्ञा जानीमः म मम परमधर्मं किम् अस्ति कथं तस्य ब्रह्मप्राप्तिकरणीयं तस्य प्रति प्रयत्नशीलं भवामः इति अस्माकम् एव धर्मः भवेत् न भवेत् इति अस्ति अस्ति समीचीनं भगिनी सम्यक् प्राप्नोति हा मानव धर्मः कः इति अस्माभिः पूर्वं चर्चितं चर्चयित्वा निर्मितं यत् अनन्तसत्तायाः प्राप्तिः एव अस्माकं धर्मः इति एव तादृशी सर्वेषां मनुष्याणां धर्मः अस्ति यां सत्तां वयं ज्ञातुम् सा एका एका अस्ति अनन्ता च अस्ति तस्याः च नामकरणमस्ति ब्रह्मा इति अतः इदानीं वयं वदामः यत् यदि ब्रह्म सा सप्ता अस्ति तर्हि अस्माभिः तद् ब्रह्म एव ज्ञातव्यं तद्ब्रह्म कथं प्राप्तव्यम् इति अस्माकम् इदानीं प्रश्नः अस्ति कथम् अस्माभिः ब्रह्म प्राप्तव्यः ब्रह्म प्राप्तव्यम् इति विषयः अस्ति इतः अग्रे अग्रिमसप्ताहे अग्रे गच्छामः तर्हि अत्र स्थगनं कुर्मः अस्तु तर्हि धन्यवादः नमस्कारः धन्यवादः शिवरात्रिः धन्यवादः धन्यवादः धन्यवादः भगिनि नमस्ते नमस्ते रमा अस्मि भगिनि